तृतीयाष्टके एकादशप्रश्नः प्रारम्भः लोकोऽसि स्वर्गोऽसिनन्दास्य पारोऽसि अक्षितास्य क्षय्योऽसि तपथः प्रतिष्ठा परीतमन्तः विश्वम् यक्षम् विश्वम्भूतम् विश्वकोसभूतम् विश्वस्य भक्ता विश्वस्य क्षितम्स्वादयतुम्भूतम् विश्वकमद्भूतम् विश्वस्य भक्तृ विश्वस्य जनयत् तत्त्वोपदधे कामुदृकमक्षितम् तया देवतया देवदयाङ्ग्रीना समुद्रो दिवश्रितः विश्वकुंसभूतम् प्रजापतिस्वासादयतु भक्त्यो विश्वस्य दैत्यः प्रजापतिस्वासादयतुङ्गिरस्वध्वादिष्टादमन्तः विश्वम् यक्षम्भूतम् विश्वकों सुभूतम् विश्वस्य भक्त्रीयतुम्भूतम्भूतम् प्रजापतिस्वासाधयतु यया देवतया क्षया देवरिक्षेश्वः विश्वं यक्षम्भूतं विश्वकमसभूतम् विश्वस्य भर्ता विश्वस्य जनयिताक्षितम् ीतास्वादयतुङ्गिरस्वध्वीर आदित्योभिश्वप्रतिष्ठा त्वम् नक्षत्राणाम् प्रतिष्ठा त्वयिमन्तः विश्वम् विश्वम्भूतम् विश्वकुमभूतम् विश्वस्य विभर्ता विश्वसिजनयिता तन्द्वोपदधेकामुदकमक्षितम् पिताश्वासादयितु यया देवतयाङ्गिरस्वध्रुवासीदः नक्षत्राणिश्च जन्मश्चितानि प्रतिष्ठा विश्वासु विश्वम्भूतम् विश्वकमतभूतम् विश्वस्य भर्त्रोणि कानि पर्वतथेकामदुघान्यक्षितानि यया प्रतिष्ठदयाङ्गिरस्वध्रुवासीद संवत्सरक्षत्रेतः प्रतिष्ठा त्वयितवन्तः विश्वम् यक्षम् विश्वम्भूतम् विश्वकमतभूतम् विश्वस्य भर्ता विश्वस्य जनहिता क्षितम्स्वारयतुष्टायुष्मासु हिमन्तः उपदधे कामृहानन्तः विश्वयक्षम्भूतम् विश्वकुंसभूतम् विश्वस्य भट्टारो विश्वस्य जनयतारः तानुव उपदधे कामृघाक्षितान् प्रजापतिस्वासादयितु यया देवदयाङ्ग्रस्वध्वासीर अहोरात्रे स्थोर्धमासेषु श्रुते भूतस्य प्रतिष्ठे भव्यस्य प्रतिष्ठे युवयोः विश्वस्य भर्त्र्यौ विश्वस्य मैत्र्यौ हे वाक्षिते प्रजापतिस्वासाधयितु ययादेश्मासु इदमन्तः क्षम्भूतम् विश्वकुंसूतम्स्वाराधयतु धर्मपत्नी विश्वम्भूतमप्रभूता त्वहीतमन्तः विश्वन्यक्षम् विश्वम्भूतम् विश्वकुंसभूतम् विश्वस्य भर्त्री विश्वसि नैत्रीका मधुघामक्षिताम् प्रजापतिस्वाराधयतु क्षितम् प्रजापतिस्वासादयतु यया देवतयाङ्गलस्वधुवासीदैरुद्रो महो दिवः संवादे ङ्गोषाविधरत्मनाः देवा देवेषु श्रेयध्वम् प्रथमा द्वितीयेषु श्रेयध्वम् द्वितीयास्तृतीयेषु श्रेध्वम् तृतीयाश्चतुर्थेषु श्रेयध्वम् चतुर्थाः पञ्चमेषु श्रेयध्वम् पञ्चमा षष्ठेषु श्रेयध्वम् षष्ठा सप्तमेषु श्रेयध्वम् सप्तमा अष्टमेषु श्रेयध्वम् अष्टमा नवमेषु श्रेयध्वम् नवमादशमेषु श्रेयध्वम् दशमा एकादशेषु श्रेध्वम् एकादशा द्वादशेषु श्रेयध्वम् द्वादशास्त्रयोदशेषु श्रेयध्वम् त्रयोदशास्त्रशेषश्रेधम् त्रर्दशाः पञ्चदशेष श्रेध्वम् पञ्चदशा षोडशेष श्रेधम् षोडशासप्तदशेषश्रेध्वम् सप्तदश अष्टादशेषश्रेधम् अष्टादश एकान्नविंशेश्रेध्वम् एकान्नविंशः विविंशेश्रेध्वम् त्रिवंशः एकविंशेश्रेध्वम् एकविंशाद्वाविंशेश्रेध्वम् द्वाविंशास्त्रयोविंशेश्रेध्वम् त्रयोविंशास्त्रचतुर्विंशेषश्रेध्वम् चतुर्विवंशाः पञ्चविंशेषश्रेध्वम् पञ्चविवंशाः षड्विंशेषु श्रेयधम् षड्विंशास्सप्तविंशेषु श्रेध्वम् सप्तविवंशा अष्टाविंशेषु श्रेध्वम् अष्टाविंशत् एकान्त्रिविंशेषु श्रेध्वम् एकानत्रिविंशास्त्रिविंशेषु श्रेध्वम् त्रिविंशत् एकत्रिविंशेषु श्रेध्वम् एकत्रिविंशाद्वात्रिविंशेषु श्रेयध्वम् द्वात्रिविंशास्त्रयस्त्रिविंशेषु श्रेयध्वम् एवास्त्रिरेकादशास्त्र्यस्त्रयस्त्रिविंशाः उत्तरे भवता उत्तरवर्त्मान उत्तरसत्पानः मैज्वामि समृद्धताम् वैगुश्यामृदयोम् ऊर्ध्वभस्वस्वाहाविष्णोषदा मा वर्धम् तु वाङ्गिरः गम्यैल्वाजेभिरागतम् आज्ञी विराज्ञीः सम्प्राज्ञीः स्वराज्ञीः भक्तिशोचिः तपोहरोभाः अग्निविश्वो बृहस्पतिः विश्वे देवाभुवनस्य गोपाः ते सर्वे सङ्गत्याप्राणतावचः वैगुश्यामृदयोरीणाम् भोर्भस्वस्वाहापदे प्रदातारषः ऊर्जन्न द्विपदे चतुष्पदे अग्ने पृथिवीपदे सोमवीरुधाम्बदे कष्टस्वमिधाम्पदे कृष्णवाषाणाम्पदे पित्रसत्यानाम्पदे वर्णधर्मणाम्पदे मरुतोगणानाम् वदेयः रुद्रवशोनाम्पदे इन्द्रोयुधाम्बदे बृहस्पदे ब्रह्मणस्पदे आ रुचारोजेहग्रस्वयम् ऋचारुरुजे रोचमाणः वराभरे तस्मिन् योनौ प्रजनौ प्रजायस्या स्वाहा सप्तदेशः सप्तजिह्वाः सप्तऋषे सप्तधामप्रियाणि सप्तहोत्रानुविद्वान् सप्तयोशीलिकेवताः सदृशान् देवन् देवतानामृच्छतुीदिशोऽभिलासी दक्षिणादिक इन्दो देवताः इन्द्रपुंसदिशान् देवन् देवतानामृच्छतुै दिशाभिधासदिचीतिक सोमो देवताः पृच्छतु व्योमेतस्यै दिशाभिधासदि उदीचीतिक मित्रावर्णो देवताः मित्रावर्णो सदिशान् देवो देवतानाम् ऋच्छतु योमेतस्यै दिशाभिधासदि ऊर्ध्वादिक बृहस्पतिर्देवताः बृहस्पतिगुमसदिशाम् देवन् देवतानामृच्छतुभिधासदि ृच्छतु योमेतस्यैदिशोऽभिधासति पुरुषोऽधिक पुरुषोमेकामान् समर्थयितु अन्धो जागृविणा अधावेहि मधिरक्रन्दयितरबाना अधावेहिषसमुषसमधीया अहमसो ज्योतिर्शीया अहमसोपोषीया वैकुश्यामुपयोरीणाम् श्चिन्वन्तुमापूरयन्तु बृहस्पतिः अस्मिन् यो नामसीषदम् ष्वारोचने दिवः प्रत्युञ्जम् मेधाकारम् अग्निगो होतारम्बरिभूतम् मनुष्यत्पाणि धीमहि मनुष्यत्समिधीमहि अग्ने मनुष्यदङ्गिरः देवान्दे वायते यज अग्निर्वाजिषे प्रदादिश्वजर्षिः अग्निराये स्वाभुवम्भ्याभर पृष्टो देव पृष्टो अग्निः पृथिव्याम् पृष्टो विश्वा ओषधीराविवेश वैश्वानरस्सहसा पृष्टो अग्निः वासरिषप्पादुरक्तम् वा वयः पवते सोऽग्निर्नाचिकेतः यतनम् प्रदिष्टाम् हिरण्यं वाग्नेर्नाजिगेतस्यायुतनं प्रतिष्ठा एवं वेदाय प्रतिष्ठा यो वाग्नेर्नाजिगेतस्यैर्नाजिगेतस्य शरीरम् एवं वेद सशरीर एव स्वर्गं लोकमेति यथा एवमेव स तेजसामीनामीते लोकाः एष क्षय्यन्लोकञ्जलि यो वरेणादित्यम् यः परेणादित्यम् अनन्तरमक्षय्यन् लोकञ्जयि योगाञ्जनदे योजयनमेवं वेद अथोयथावर्तमाने प्रत्यपेक्षते लोकमा यो न्दतौ नाम पुत्र आसुमुहकुमारम दक्षिणासु नीयमानासु श्रद्धाविवेश तचा तदकस्मैमान्दास्य मृत्यवे त्वा ददामीति हस्माभिमारमिति सहो वाचा परेः मृत्यो गृहान् मृत्यवेदयित्वा दामिति तम् मयि प्रभसन्तम् गन्दासीति होवाच तस्य स्वतिशोरात्रेणाश्वान्भ्येव यदित्वा पृच्छेत् कुमारगतिरात्रैरवात्सेरिति तिस्रैति प्रतिबोधाद् किं प्रथमा गोरात्रमाश्ना इति प्रजान्त इति किम् द्वितीयामिति अशोकस्तैदि किम् साधुकृत्यावास नमागत्यपप्रच्छा कुमारगतिरात्रैरवात्सै तिस्रैति प्रत्युवाच किम्प्रथमागोरात्रिमाश्न इति प्रजान्त इति किं तृतीयामिति नमस्ते सुभगवैदिष्वति इष्टार्मे क्षितिं गृहीति हो वाचा तस्मै ततो वेदस्येष्टाभूर्तेना क्षीयेते नाचेष्टाभूर्ते क्षीयेते योगन्नाचिवेदं जनते तु देयम रुद्रेश्वरे अलमूर्त्यार मेपचदिम रोहिते दुवाचा अस्मि हेतवक् कन्नाज गेदम वाचा तवमे सापकमलम उच्चमजेद अपवदनम उच्चमजेदि यो कननाज गेदम जिलते दे, देवचयन मेवं वेदा प्रजापतर्वै पूजाकामस्तवादप्ते सहेन्यमुदास्यत तदग्नो प्रास्यत तदस्मैनाच्छरयद तद्वितीयं तदस्मै नैवाच्छरयद तृतीयं तदस्मै नैवाच्छरयद तदात्मनैव हृदये नैश्वानरे प्रास्यद तदस्माच्छदयद तस्माध्यरण्यङ्कनिष्ठन्धनानां ध्वन्यत्प्रियतमं हि स वैदमेव नाविन्दद यस्मैतान् दक्षिणामीतिगृह्या ह एवम् वेदस्मै स्वः अप्यनो देदस्यान् दक्षिणाम् प्रतिगृह्णन्ति उभयेन वयम् दक्षिष्यामः एव दक्षिणाम् प्रतिगृह्येति ते दक्षन्तदक्षिणाम् प्रतिगृह्य अक्षदेहवीदक्षिणाम् प्रतिदिश्य ह एवं वेदाशुपन्त एव उत्तरवेद्यात्तरवेदिसंयेषः सन्न तथा एतमग्निम् कामे न व्यर्थयेत् न कामे न व्युर्थः कामे न व्यर्थयेत् सौम्ये वा चिन्हीता यत्र वा भूयिष्ठ आहुतयो भूयैरन् एतमग्निम् कामे न अथ हीनम् पुर ऋषयः तरवेद्यामेव सत्मजिनः ततो वीदे प्रजाम् अभिस्वर्गल्लो अगम एव प्रजाम् अभिस्वर्गं लो गञ्जयति योऽन्नाचिकेतम् चनुते यौचैनमेवम् वेद अथहीनम् वायुरुधिकामः तथान्युक्तमेवोपदथे ततो वै स एतामृध्यमाध्नोद् यामिदम् वायुरिद्धः एतामृद्धिमध्मोदि यामिदम् वायुरिद्धः योऽन्नाचिकेतम् चिनुते यौचैनमेवम् ्ये पञ्चपुरस्ताद् पञ्चदक्षिणतः पञ्चपश्चात् मध्ये ततो वैशसहस्रम् पशून् प्राप्नोद् प्रसहस्रम् पशूना आप्नोति योगन्नाथेतञ्च योजयनमेवम् वेदानम् प्रजापतिजयिष्य श्रुतमेव सिक्खे सप्तपुरस्तात् तिस्रवदक्षिणतः सप्तपश्चात् तिस्रवोत्तरतः एका एताम्ब्रजायतन्ते त्रिवद्वैज्यैष्ठ्यम् मातापिता पुत्रः त्रिवत्प्रजननम् उपस्वयो निर्मध्यमा प्रयशोज्यैष्ठ्यमाप्नोति एताम्ब्रजादिम्बजायते तामिदम् भ्रजायन्ते योगिवेदञ्च ते यो जैनमेवं वेद तथहेन एव जैष्यो अचितं योजैनमेवं वेदानमधावादित्यस्वर्गकामः प्राचीरेवोऽपदेव ततोऽवेषास्वर्गन् लोकमजेद अभिस्वर्गन् लोकं जयति योगन्नाचिकेदञ्जलते योजैनमेवं वेदाेदस्वी यशस्वी ब्रह्मति ेवी ब्रह्मवर्धति भूयिष्ठा दक्षिणानये दक्षिणा सुयमाना सुप्राच्यै प्राच्यै स्वाहेतस्रुवेणो भवत्या स्मे श्रद्धे भूयिष्ठा दक्षिणानियन्दीमपधाय श्रीकृतभिरविमृश्य अग्निमृणीयसमाधाय चतस्र एताहृहो इति वधोद्धारायाःत्यन्नहोमः सप्तदेश्रीः इदाम् प्रथमामिष्टकामपदधाति इमया लोकमभिजयति तथोया प्नोति यां द्वितीयामुदधाति अन्तरिक्षलोकं देवता साकुंसायुज्यं सलोकतामाप्नोति यां तृतीयादिन्दया लोकमभिजयति अथोयामुष्मिन्लोके देवता साकुंसायुज्यगुंस लोकतामाप्नोति तानेवताभिरभिजयति कामचारो वा अस्यो ऋषिजबरीयस्विच लोकेषु भवति यो अग्निन्नाचिकेतम् च नु ते योजयनमेवम् वेद संवत्सरो वाग्निनाचिकेतः तस्य वसन्दर्शिरः ग्रीष्मो दक्षिणः पक्षः वरुषातरः शरच्छम् आधाः कर्मकाराः अहोरात्रे शतरुद्रीयम् पद्यन्यसरोद्धाराः तथापि पद्यन्यस्वृष्टिम् पृष्ट्वा प्रजाभ्यः सर्वान् कामान् सम्भोरयति एवमेव स्वस्य सर्वान् कामान् सम्पूरयति योग्निर्नाचिकेतम् जनुते योनेवम् वेदसरो वाग्निर्नाचिकेतः तस्य सन्दर्शिरः ग्रीष्मादक्षिणःपक्षः पुरुषाः पुच्छ्यम् सरिदुत्तरः पक्षः हेमन्द्वामध्यम्पक्षाः पुरीषम् अहोरात्राणिष्टकाः एषवावतोनिरग्निमयः पुनर्नवः पुनर्नवो भूत्वा श्रुतलोगमेति आदित्यस्य साहित्यम् योग्यन्नाचिकेतञ्च ऋते यौजयनमेवं व्य इति तृतीयाष्टके एकादशप्रश्नः समाप्तः